मुनिकर्णमण्डित मोक्ष प्रणाय मञ्जुरभाषिः वेदगुहे मुनिगर्णमण्डित मोक्ष प्रणाय मञ्जुरभाषिः वेदगुहे पङ्कज पङ्कजवासि न शान्ति पङ्कजवासि सप्न मिढी शान्ति उ ी मश नानि वै गरु लक्ष्मी सदा पालय मा लक्ष्मी सदा पालय मारवी वैष्णवी भागमि मन्त्रस्वरूपिणी मन्त्रमा मन्त्रस्वरूपिणी मन्त्रमये कुरगणपूजित शीघ्रमल व्रज ज्ञानवि गादि वाकी राघवि स्वरसप्त बू No. my head oh my go my go